श्रीमदभागवत महापुराणम दसमस्क अथ सप्ततीत्याय भगवान श्रीकृष्ण की नृत्यचर्या और उनके पास जरासंध के कैदी राजाओं के दूत का आनाम। शेषो कुवाच अथो स्योपवृत्तायां कुटा कुज तो श गृहीतकण्ठपतिभिर्माधव्यो विरहातुराः वयां स रुवन्कृष्णं बोधयन्त्येव मन्दिनः मुहूर्तं तं तु वैदर्भी नामृष्यदति शोभनं परिरम्भणविश्लेषात् प्रियबाहुन्तरं गता ब्राह्मे मुहूर्त उत्थाय वायुपस्पृश्य माधवः दध्यौ प्रसन्नकरण आत्मानं तमश परम् एकं स्वयं ज्योतिरनन्यमव्ययं स्वसंशया नित्यनिरस्तकल्मषं ब्रह्माख्यमस्यो स्वशक्तिभिर्लक्षितं भावम् भावनिर्वृतिम् अथाप्लुतोऽम्भस्य मले यथाविधि क्रियाकलापं परिधाय वाससि चकारसन्ध्योपगमादिमसत्तमो हुता नलो ब्रह्मजजापवाग्यतः उपस्थायार्कमुद्यन्तं तर्पयित्वात्मन कलाः देवान् ऋषिन् पितृन् वृद्धान् विभ्राणभ्यर्चात्मान् धेनूनां रुक्मशृङ्गीणां साध्वीनां मौक्तिकस्रजां पजस्वनीनां गृष्ठीणां सवस्तानां सुवाससां ददौरूप्य खुराग्राणां क्षौमाजिनतिलेशः अलङ्कृतेभ्यो विप्रेभ्यो बद्धं बद्धं दिने दिरें गोविप्रदेवतावृद्धगुरून् भूतानि सर्वश नमस्कृत्यात्मसम्भूतिर्मङ्गलानि समस्पृशत् आत्मानं भूषयामास नरलोकाविभूषणं वासोभिर्भूषणै स्वीयै दिव्यस्रगनुलेपनै अवेक्षाद्यं तथा दर्शं गोवृषद्विजदेवताः कामाश्च सर्ववर्णानां पौरान्तपुरुचारिणां प्रदाप्य प्रकृतिकामैः प्रतोष्य प्रत्यनन्दत संविभज्जाग्रतो विप्रान्सृकृताम्बूलानुलेपनैः त्रेदप्रकृतिर्धारानुपायुङ्क्तयम् तावत् श्रुतौ पालीयशन्दनं परमाद्भुतम् सुग्रीवाद्यर्हक्तं प्रणम्यावस्थितो ग्रतः गृहीत्वा पाणिना पाळी सारथे तमथारुहन् सात्यक्योद्धव संयुक्तपुर्वाद्रिमिभास्करः ईक्षितोन्तपुरस्त्रीणां सवीडत्प्रेमभीक्षितये कृच्छादविसृष्टो निर्गाजातः सो हरन्मनः स्वधर्माख्यां सभां सर्वे विष्णुभिः परिवारितः प्राविसञ्जन्यविष्टानां न सत्यङ्गं शरुर्मयः तत्रोपविष्ट परमासने विभुर्बभो सभासा ककुभो वभासयन् ऋतो निसिंहै यदुभिर्यदुत्तमो यतो राजो दिवितारकागणे तन्त्रोपमन्त्रिणो राजन्नानाहास्य रसैर्विभुम् उपतस्थुर्नटाचार्या नृतज्ञस्ताण्डवै पृथक् मृदङ्गवीला मृजवेलुतालतरश्वनैः ननतु जगुस्तुष्टुवुचुश्च सूतमागतवन्दिन तत्रा बर्हाहिणा केचिद्दासीन ब्रह्मवादिनः पूर्वेषां पुण्ययशंसां राज्ञां चाकथयन् कथाः तत्रैकः पुरसो पुरुषो लागतो पूर्वदर्शनः विज्ञापितो भगवते प्रतिहारै प्रवेशितः तव नमस्कृत्य कृष्णाय परेशाय कृताञ्जलिः राज्ञामावेदयद्दुःखं जरासन्धनिरोधजम् ये च दिग्विजे तस्य सन्नतिं न ययुर्निपाः तथैवरुद्धास्तेनासन्नयुते द्वे गिरिव्रजे कृष्णकृष्णा प्रमेयात्मन् प्रपन्नभयभञ्जनं वयं त्वां शरणं यामो भवभीता लोको विकर्मनिरतः कुशले प्रमत्तः कर्मण्ययं तदुदिते भवदर्चनेष्वें यस्तावदस्य बलवाणिः जीवितांसां सद्य सिन्नत्यनिविषाय न भोस्तु लोके भवा जगति कलयावतिर्य। कलयावतीर्य सद्रक्षणाय खलनिग्रहणाय चान्यः कश्चित्त्वदीयमतियाति निदेशमीश किं वा जनः स्वकृतमिच्छति तन्नस्मि